अथ द्विनवतितमः सर्गः ततः पौलस्य सचिवा श्रुत्वा चेन्द्रजितो वधम् आचचक्षुरभिज्ञाय दशग्रीवाय सत्वराः युद्धे हतो महाराज लक्ष्मणेन विभीषण विभीषणसहायेन मिषताम् नो महाद्वितिः शूरः शूरेण सङ्गम्य पराजितः लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् गतः स परमाम् लोकाञ्छरैः सन्तर्प्य लक्ष्मणम् सतम् प्रतिभयम् श्रुत्वा वधम् पुत्रस्य दारुणम् घोरमिन्द्रजितः सङ्ख्ये कश्मलम् प्राविशन् महत् उपलभ्य चिरात्सञ्ज्ञाम् राजा हाराक्षसचमो च मोमुख्य मम वत्स महाबल जित्वेन्द्रम् कथमद्यत्वम् लक्ष्मणस्य वशम् गतः ननु त्वमिषुभिः क्रुद्ध्यो भिन्द्या मन्दरस्यापि शृङ्गाणि किम् पुनर्लक्ष्मणम् युधि अद्य वैव राजा भूयो बहुमतो मम येनाद्यत्वम् महाबाहो संयुक्तः कालधर्मणा एष पन्थाः सुयोधानाम् सर्वामरगणेष्वपि यः कृते हन्यते भर्तु स पुमान् स्वर्गमृच्छति अद्य देवगणाः सर्वे लोकपाला महर्षयः हतमिन्द्रजितम् श्रुत्वा सुखं स्वप्स्यन्ति निर्भया अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना एके हीना शून्येव प्रतिभाति मे अद्य नैरृतकन्यानाम् श्रोष्याम् यन्तः पुरेरवम् करेणु सङ्घस्य यथा गिरिगह्वरे यौवराज्यम् च लङ्काम् च रक्षांसि च परम् तप मातरम्माम् च भार्याश्च क्व गतोऽसि मम नाम वीरगतस्य यमसादनम् प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे सत्वं जीवति सुग्रीवे लक्ष्मणे च स राघवे मम शल्यमनुद्धृत्य क्वगतोऽसि विहायनः एवमादिविलापार्तम् रावणम् राक्षसाधिपम् आविवेशमहान् कोपः पुत्रव्यसनसम्भवः प्रकृत्याकोपनम् ह्येनम् पुत्रस्य पुनराधयः दीप्तम् सन्दीपयामासुर्घर्मेऽर्कमिवरश्मयः ललाटे भ्रुकुटीभिश्च सङ्गताभिर्यरोचत युगान्ते सह नक्रैस्तु महोर्मिभिरिवो दधिः कोपाद्विजृम्भमाणस्य वक्त्राद्व्यक्तमिव ज्वलन् उत्पपातसधूमाग्निर्वृत्रस्य वदनादिव बुध्या रावणों बुद्धिया वैदेह्याचयद्क् रोधाग््ना चवण से महाघोरे दीप्ते नेूवधु घोरम प्रकृत रूप क्रोधाचित बभूव क्रुध्य रुद्र सुरासद तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन्नश्रुबिन्दवः दीपाभ्यामिव दीप्ताभ्याम् सार्चिषः स्नेहबिन्दवः दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव कालाग्निरिव सङ्क्रुद्धो याम् याम् दिशमवैक्षत तस्याम् तस्याम् भयत्रस्ता राक्षसाः संविलिल्यरे तमन्तकमिव क्रुद्धम् चरा चरचिखादिषुम् वीक्षमाणम् दिशः सर्वा राक्षसानोपचक्रमुः ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः अब्रवीद्रक्षसाम् मध्ये संस्तम् भयिषुराहवे मया वर्षसहस्राणि चरित्वा परमम् तपः तेषु तेष्वकाशेषु स्वयम्भूः परितोषितः तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः नासुरेभ्यो न ना देवेभ्यो भयम् मम कदाचन कवचम् ब्रह्म दत्तम् मे यदादित्यसमप्रभम् देवासुरविमर्देषु नच्छिन्नम् वज्रमुष्टिभिः तेन मामद्य संयुक्तम् रथस्थमिह संयुगे प्रतीयात् कोऽद्यमाजौ साक्षादपि पुरन्दरः यत्तदाभिप्रसन्नण सशरम् कार्मुकम् महत् देवासुरविमर्देषु मम दत्तम् स्वयम्भुवा अद्यतूर्यशतैर्भीमम् धनुरुत्थाप्यताम् मम रामलक्ष्मणयोरेव समीक्ष्य रावणो बुद्ध्या सीताम् हन्तुम् यवस्यत प्रत्यवेक्ष्यतु ताम् राक्षसुघोरोघोरदर्शनः दीनो दीनस्वरान् सर्वाम् स्तानुवाचनिशाचरान् मायया मम वत्सेन वञ्चनार्थम् वनौकसाम् किञ्चिदेव हतम् तत्र सीतेयमिति दर्शितम् तदिदम् तथ्यमेवाहम् करिष्ये प्रियमात्मनः वै देहीम् नाशयिष्यामि क्षत्रबन्धुमनुव्रता इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् उद्धृत्य गुणसम्पन्नम् विमलाम्बरवर्चसम् निष्पपातस वेगेन सभार्यः सचिवैर्वृतः रावणः भ्रजन्तम् राक्षसम् प्रेक्ष्य सिंहनादम् विचुक्रुशुः ऊचुश्चान्योन्यमालिङ्ग्य सङ्क्रुद्धम् प्रेक्ष्य राक्षसम् अद्यैनम् ताबुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः बहव शात्रवश्चान्ये संयुगेष्वभिपातिताः षु लोकेशु रुं आहृत रावण विक्रमे च बलें चय सदृशो भुवि तंजलमशोकवता अभीद्रव वैदे वा रावण क्रोधमूर्मा संगक्रुद्धस्वृद्हतु अभ्यधात सक्रुद्ध खे ग्रहो रोहिणी मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ददर्श राक्षसम् क्रुद्धम् निस्त्रिंशवरधारिणम् तम् निशम्यस निस्त्रिंशम् यथिता जनकात्मजा निवार्यमाणम् बहुशः सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् यथायम् वधिष्यति स नाथाम् मामनाथामिव दुर्मतिः बहुशश्चोदया मा स भर्तारम् भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवम् मया सोऽयम् मामनुपस्थाने व्यक्तम् नैराश्यमागतः क्रोधमोऽहसमाविष्टो व्यक्तम् माम् हन्तुमुद्यतः अथवा तौ न रव्याघ्रौ भ्रातरौ रामलक्ष्मणौ मन्निमित्तमनार्येण समरेद्य निपातितौ भैरवोहिमहान्नादो राक्षसानाम् श्रुतो मया बहूनामिह हृष्टानाम् तथा विक्रोशताम् प्रियम् अहोधिङ्मन्निमित्तोऽयम् विनाशो राजपुत्रयोः अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ विधमिष्यति माम् रौद्रो राक्षसः पापनिश्चयः हनूमतस्तु तद्वाक्यम् नकृतं कृतम् शुद्रया मया यद्यहम् तस्य पृष्ठेन तदा यासमनिर्जिता नाद्यैव मनुशोचेयम् भर्तुरङ्कगता सती मन्ये तु हृदयम् तस्याः कौसल्यायाः स्फलिष्यति एकपुत्रा यदा पुत्रम् श्रोष्यते युधि साहि जन्म च बाल्यम् च यौवनम् च महात्मनः धर्मकार्याणि रूपम् च रुदति संस्मरिष्यति निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना अग्निमावेक्ष्यते नूनमपोवापि प्रवेक्ष्यति धिगस्तु कुब्जामसतीम् मन्थराम् पापनिश्चया यन्निमित्तमिमम् शोकम् कौसल्या प्रतिपत्स्यते इत्येवम् मैथिलीम् दृष्ट्वा विलपन्तीम् तपस्विनी रोहिणीमिव चन्द्रेण विनाग्रहवशम् गता एतस एतस्मिन्नन्तरे तस्य अमात्यः शीलवाञ्छुचिः सुपार्श्वो नाम मेधावी रावणम् रक्षसाम्बरम् निवार्यमाणः सचिवैरिदम् वचनमब्रवीत् कथम् नाम दशग्रीव साक्षाद् वैश्रवणानुजा हन्तुमिच्छसि वैदेहीम् क्रोधाद्धर्ममपास्य च वेदविद्याव्रतस्मातः स्वकर्म निरतस्तथा स्त्रियः कस्माद्वधम् वीरमन्यसे राक्षसेश्वर मैथिलीम् रूपसम्पन्नाम् प्रत्यवेक्ष स्वपार्थिव तस्मिन्नेव सः अस्माभिराहवे क्रोधमुत्सृज अभ्युत्थानम् त्वमद्यैव कृष्णपक्षचतुर्दशी कृत्वा निर्याह्यमावास्याम् विजयाय बलैर्वृतः शूरो धीमान् रथी खड्गी रथ प्रवरमास्थितः हत्वा दाशरथिम् रामम् भवान् प्राप्स्यति मैथिली स तद्दुरात्मा सुहृदा निवेदितम् वचः प्रतिगृह्य रावणः गृहम् जगामाथ ततश्च वीर्यवान् पुनः शे श्रीमद्राणे वाल्मीक आदि का्युद्धकांडे द्व सर्ग